श्रीहरये नमः अथ विंशोऽध्यायः श्रीशुक उवाच पूर्वोर्वंशं प्रवक्ष्यामि यत्र जातोऽसि भारतं यत्र राजर्षयो वंश्या, वंश्या जज्ञिरे जनमेजयो ह्यभूत्पूरो प्रचिन्वांस्तत्सुधस्ततः प्रवीरोतनमस्योर्वैतस्माश्चारुपधोऽभवत् तस्य याति रौद्रा स्वस्तः सु स्मृतः ऋतेयुस्तस्य कुशेयु स्तण्डिलेयुः कृतेयुकः जलेयुः सन्ततेयुश्च धर्मसत्यव्रतेयवः दशैते प्रससः पुत्रा वनयेश्चु सावमः स्मृतः घृताश्चामिन्द्रियाणीव मुख्यस्य जगदात्मनः ऋतयोरन्ति भारो भोत्रयस्तस्यात्मजा नृप सुमतिर्द्रुवो प्रतिरतः कण्वो तस्य मेधातिथिस्तस्मात् प्रस्कण्वाध्याद्विजातयः पुत्रोऽभूत्सु मतेरभ्यो दुष्यन्तस्ततत्सुतो मतः दुष्यन्तो मृगयाम्प्याथक् कण्वाश्रमपथं गतः तत्रासीनां स्वप्रभयामण्डयन्तीं रमामिव विलोक्य सत्यो मुमुखदेवमायामिव स्त्रियं भभाषेतां वरारोहां कति भटैः कतिपयर्व्रतः दद्दर्शनप्रदिमुतितः सन्निवृत्तपरिश्रमः पप्रश्च कामसन्तप्तप्रकसन् श्लक्ष्मया किं वाचिकीर्षितं त्वत्र भवत्या निर्जने वनें वेद्यहं त्वां सुमध्य मे न हि रमते क्वचित् शकुन्तलो विश्वामित्रात्मजैवाहं त्यक्ता मेन कया वीरकिं करवामते आस्यतां ह्यरविन्दाक्षगृह्यतामगणं च नः भुज्यतां सन्ति नीवाराष्यतां यदि दुष्यन्तौ उवाच उपपन्नमिदं शुभ्रो जातया कुशिकान्वये स्वयं किवृणते राज्ञां कन्यकाशदृशं वरम् ओमित्युक्ते युता उपयेमेशकुंतलां उपयेमेष शकुन्तलां गान्धर्वविधिना राजादेशकालविधानवेत् अमोघवीर्यो राजर्षिर्मखिष्यां वीर्यमादधे सर्वो भूते कण्कुमारस्य वने चक्रे समुचिता क्रिया बद्वा मृगेन्द्रान्स्तरसा क्रीडति स्म स आधाय प्रमथोत्तमान् हरे अंसां सम्भूतं यदा न जगृहे राजा भार्यापुत्रौ अनिन्दितौ शृण्वतां सर्वभूतानां के वा गाः शरीरिणे माता वस्त्रा पितुः पुत्रो येन जातस्य एव सः वरस्वपुत्रं दुष्यन्तमागमं स्था शकुन्तलाम् रेदोधा पुत्रो नयति नरेवयमक्षयात् त्वं चास्य धाता गर्भस्य पितर्यु पितर्युपरतेशोऽपि चक्रवर्ती महायसाखात् महिमा गीयते तस्य हरेरं श भुवो भुवे चक्रं दक्षिणहस्तेऽस्य पद्मकोशास्त्यपादयोः ईजेमकाभिषेकेण सोऽभिषक्तो ट्विभुः पञ्च च पञ्चाशता मेद्यैर्गङ्गाया मामतेयं मामतेऽयं पुरोधाय यमुनाया मनुप्रभुः अष्टसप्तति मेध्या स्वान् भवन्त प्रदधत्वसु हि दौष्यन्ते अग्निशाची गुणे चितः सहस्रं पद्मवसो यस्मिन् ब्राह्मणाघाविभेजिरे त्रयस्त्रिंशत् शतं ह्यस्वान् बद्ध्वा विश्वापयन्नृपान् दौश्यन्तिरद्यघान् मायां देवानां गुरुमायया मृगान् शुक्लदथ कृष्णान् हिरण्येन परिवृतान् अधात् कर्मणि मष्णारे भरदस्य मकत्कर्म न पूर्वेणापरे नृपाः नैवापूर्नैव प्राप्स्यन्ति भागुभ्यां त्रिदिवं यता किरात होणान् यवानन्द्रान् कङ्कान् कशान् साकान् अब्रह्मण्यान् न किलान् जित्वा पुरा सुरा देवान्ये रसौ कांसि भेजिरे देवस्त्रियो रसां नीता प्राणिभिः पुनराहरत् सर्वकामान् दुतुहतुः प्रजानां तस्य रोदसी समास्त्रिणिवसागस्त्रिदिक्षुचक्रमवर्तयत् स सम्राड् लोकपालाख्यामैश्वर्यम् अधिराड् श्रियं चक्रं शाष्कलितं प्राणान् मृषेत्युपररामः तस्यासन्नृपवै दर्व्यपन्यस्तिस्र सुसम्मताः जग्स्त्यागभयात्पुत्रानानुरूपा इतिरिते तस्यैवं वितते वं से तदर्दं यजतः सुतं मरुत्स्तोमेन मरुदो भरत्वाजम् उपाधतुः अन्तर्वन्त्यां भ्रातृपत्न्या मैथुनाय प्रवृत्तो वारितो गर्भं सत्त्वा वीर्यम् तं त्यक्तु कामां ममतां भर्तृत्यागविशङ्कितां नाम निर्वचनं तस्य श्लोकमेनं सुराजगुहो मूढे भरद्वाजमिमं भरद्वाजं बृहस्पते यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयं शोध्यमाना सुरैरेवं मत्वा विततमात्मजं व्यसृजन्मरुतो बिभ्रन्धोयं थेऽन्वये इति श्रीमद्भागवते महापुराणे नवमस्कन्ते विंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनात्मकराजके जय